सर्गः ततःकाले बहु तिथे कस्मिंश्चित्सु मनोहरे वसन्ते समनुप्राप्ते राज्ञो यष्टुम् मनोऽभवत् ततः प्रणम्य शिरसा तम् विप्रम् देववर्णिनम् यज्ञायवर यावास सन्तानार्थम् कुलस्य च तथेति च स राजानमुवाच वसुधाधिपम् संहाराः सम्भ्रियन्ताम् ते तुरगश्च विमुच्यताम् सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयता ततो ब्रवीन् नृपो वाक्यम् ब्राह्मणान् वेदपारगान् सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः सुयज्ञम् वामदेवम् च जाबालिमथ काश्यपम् पुरोहितम् वसिष्ठम् च चा ये चान्ये द्विजसत्तमाः ततः स्वमन्त्ररितम् गत्वा त्वरितविक्रमः समानयत्स सर्वान् समस्तान् वेदपारगान् तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा धर्मार्थसहितम् युक्तम् श्लक्ष्मम् वचनमब्रवीत् मम तातप्यमानस्य पुत्रार्थम् नास्ति वै सुखम् पुत्रार्थम् भयमेधेन यक्ष्यामीति मतिर्ममा तदहम् यष्टुमिच्छामि हयमेधेन कर्मणा ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ततः साध्विति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्युतम् ऋष्यशृङ्गपुरोगाश्च प्रत्योच तदा संभाराः सम्भ्रियम् ते तुरगश्च विमुच्यताम् सरयवाश्चोत्तरे तीरे यज्ञभूमिर्विधीयता सर्वथा प्राप्स्यसे पुत्रांश्चतुरोमिद विक्रमान् यस्य ते धार्मिकी बुद्धिरियम् पुत्रार्थमागता ततः प्रीतो भवद्राजा श्रुत्वा तु द्विजभाषितम् शुभाक्षरम् गुरूणाम् वचनाच्छीघ्रम् सम्भाराः सम्भ्रियम् तु मे समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् तीरे यज्ञभूमिर्विधीयताम् शान्तयश्चाभिवर्धन्ताम् यथा कल्पम् यथाविधि शक्यः कर्तुमयम् यज्ञः नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसप्तमे छिद्रम् हि मृगयन्त्येते विद्वान् सो ब्रह्म राक्षसाः विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते तथा विधानम् क्रियताम् समर्थाः करणेष्विह तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् पार्थिवेन्द्रस्य तद्वाक्यम् यथा ज्ञतमकुर्वता ततो द्विजास्ते धर्मज्ञमस्तु वन् पार्थिवर्षभम् अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथा गतम् गतेषु तेषु विप्रेषु मन्त्रिणस्तान्नराधिपः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे द्वादशः